तृतीयोऽध्यायः ध्यानम् ओद्यध्वानुसहस्रकान्तिमरुणक्षौमाम् शिरोमालिकाम् रक्तालिप्तपयोधराम् जपवटीम् विद्यामभीतिम् वरम् हस्ताब्जैर्दधतीम् त्रिणेत्रविरसद्भक्तारविन्दश्रियम् देवीम् बद्धहिमांशुरत्नमुकुटाम् वन्देरविन्दस्थिताम् ओम् ऋषिरुवाच निहन्यमानम् तत्सैन्यमवलोक्यमहासुरः सेनानीश्चिक्षुरः कोपाद्ययोद्धुमथाम्बिकाम् स देवीम् शरवर्षेण ववर्षसमरेऽसुरः यथा मेरुगिरे शृङ्गम् तोयवर्षेण तो तस्यच्छित्त्वा ततो देवी लीलयैव सरोत्तरान् जघान तु रगान् बाणेर्यम् तारम् चिच्छेद धनुः सद्यो ध्वजम् जातिसमुच्छ्रितम् विव्याध गात्रेषु छिन्नधन्वा नमाशुगैः सच्छिन्नधन्वा विरथो हताश्वो हतसारथिः अभ्यधावतताम् देवीम् खड्गचर्मधरोऽसुरः सिंहमाहत्यखड्गेन तीक्ष्णधारेण मूर्धनि आजघानभुजे सव्ये देवीमप्यतिवेगवान् तस्याः खड्गो भुजम् प्राप्य पफालनृपनन्दन ततो जग्राहशूलं सकोपादरुणलोचनः चिक्षेप च ततस्तत्तु भद्रकाल्याम् महासुरः जाज्वल्यमानम् तेजोभिरविबिम्बमिवाम्बरात् भी दृष्ट्वा तदापतञ्छूलम् देवी शूलममुञ्चत तच्छूलम् शतधातेन नीतम् स च महासुरः हते तस्मिन्महावीर्ये महिषस्य च मूपतौ आजगामगजारोढश्चामरस्त्रिदशार्दनः सोऽपि शक्तिम् मुमोचाथ देव्यास्तामम् विगादृतम् हुङ्कारापिहताम् भूमौ भग्नाम् शक्तिम् निपतिताम् दृष्ट्वा क्रोधसमन्वितः चिक्षे बचामरः शूलम् बाणैस्तदपि साच्छिनत ततः सिंहः समुत्पत्त्य गजकुम्भान्तरे स्थितः बाहु युद्धेन युजुधे तेनोच्चैस्त्रिदशारिणा युध्यमानौ ततस्तौ तु तस्मान्नागान्महीम् गतौ ततो वेगात्खमुत्पत्य निपत्य च मृगारिणा करप्रहारेण शिरश्चामरस्य पृथक्कृतम् उदग्रश्चरणे देव्या शिलावृक्षादिभिर्हतः दन्तमुष्टितलैश्चैव करालश्च निपातितः देवी क्रुद्धागदापातैः शूर्णयामास उग्रास्यमुग्रवीर्यम् च तथैव च महाहनुम् त्रिनेत्रा च त्रिशूलेन जघान परमेश्वरी बिडालस्यासि नाकायात्पातयामासैशिरः दुर्धरम् दुर्मुखम् चोभौ शरैर्निन्येयमक्षयम् एवम् सङ्क्षीयमाणे तु स्वसैन्ये महिजासुरः माहिषेण स्वरूपेण त्रासयामास तान् गणान् कांश्चित्तुण्डप्रहारेण कुलक्षेपैस्तथापरान् लाङ्गूलताडितांश्चान्यान् शृङ्गाभ्याम् च विदारितान् वेगेन कांश्चिदपरान्नादेन भ्रमणेन च निःश्वासपवनेनान्यान् पातयामास भूतले निवात्यप्रमथानीकमभ्यधावतसोऽसुरः सिंहम् हन्तुम् महादेव्या कोपम् चक्रे ततोऽम्बिका सोऽपि कोपान्महावीर्यः पुरक्षुण्णमहीतलः शृङ्गाभ्याम् पर्वताणुश्चाश्चिक्षेप च नद च वेगभ्रमणविक्षुण्णामहीतस्य व्यशीर्यत नाङ्गूलेनाहतश्चाभिः सर्वतः भुतशृङ्गविभिन्नाश्च खण्डम् खण्डम् ययुध्वनाः श्वासा निलास्ता शदशो निपेतुर्नभसोऽचलाः इति क्रोधसमाध्मातमापतन्तम् महासुरम् दृष्ट्वा सा चण्डिकाकोपम् तद्वधाय तदाकरोत् सा क्षिप्त्वा तस्य वैपाशम् तम्बन्धमहासुरम् तत्याजमाहिशम् महामृधे परः छिनत्ति तब्गानीरदृश्यत तत एवाशु पुष्द चिच्छेद तम खचर्मण साध सोभगज कहासिंह तम चकर्ष जर्षतस्तु देवी खड़गेन निरकृत तो महासुरो भूयो महिशंबपुरा तथैव क्षोभयामासत् त्रैलोक्यम् सचराचरम् ततः क्रुद्धा जगन्माता चण्डिकापानमुत्तमम् पपौ पुनः पुनश्चैव जहासारुणलोचना ननर्दचासुरः सोऽपि बलवीर्यमदोद्धतः विषाणाभ्याम् च चचिक्षेपचण्डिकाम् प्रतिभूधराय सा च तान् प्रहितांस्तेन चूर्णयन्ती उवाच तम् मदोद्धूतमुखरागाकुलाक्षरम् देव्युवाच गर्जगर्जक्षणम् मूढमधुयावत् पिबाम्यहम् मया त्वयहतेऽत्रैव गर्जिष्यन्त्याशुदेवताः ऋषिर्वाच एवमुक्त्वा समुत्पत्यसारूढातम् महासुरम् पादेनार्कम्यकण्ठे च शूलेनैनमताडयत् ततः सोऽपि पदाक्रान्तस्तया निजमुखात्ततः अर्धनिष्क्रान्त एवासीद्देव्या वीर्येण संवृतः अर्धनिष्क्रान्त एवासौ युध्यमानो महासुरः तया महासिना देव्या शिरश्चित्त्वा निपातितः ततो हाहादृतम् सर्वम् दैत्यसैन्यम् न च परम् जग्मुः सकला देवतागणाः कष्टोपस्ताम् सुरा देवीम् सह दिव्यैर्महर्षिभिः जगर्गन्धर्वपतयो नऋतश्चाप्सरो गणाः ओ इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये महिषासुरवधो नाम